संप्रति वार्ताह प्रवाचिका पीएम संताल प्रधानमंत्री श्री नरेंद्र मोदी अद वाणिज्य व्यापार विभागस्य कृते राष्ट्रीय राजधानियां इंडिया गेट पार्श्वे नूतन वाणिज्य भवन निर्माणार्थं शिलान्यासं करिष्यति सुषम कश्मीर जम्मूकश्मीर राज्यपाल एन् एन वोहरा वर्य तत्र राज्यपाल शासन विषये परिचर्चार्थ सर्वदलीयोपवेशनम् आकारयत् अपि च विदेश व्यवहारमन्त्री सुषमा स्वराज साम्रेडं सबलं प्रत्यपादयत् यत् वैश्विक समाधानाय भारतम् युरोपिय संघ समं वर्तते मोदी प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य राष्ट्रिय राजधान्यां इंडिया गेट स्थलं निकषा व्यापार विभागस्य कृते नूतन वाणिज्य भवनस्य शिलान्यासं करिष्यति नूतनेऽस्मिन् विनिर्मीयमाणे भवने सहस्रपाया अधिकारिणां कर्मचारिणां च कृते आवासीय सौविध्यम् उपपादयिष्यता नूतनमिदं कार्यालयीय भवनं न केवलं भारतस्य प्रवर्धमानाम् आर्थिकस्थितिम द्योतयिष्यति प्रत्युत प्रशासनद्वारा प्रविधीनाम् अंगीकरणस्यापि प्रतीकं भविष्यति वाणिज्य भवनमिदं सर्वविध आध्निक प्रविधिभि संविलितं भविष्यति पूर्णतः करगद रहितं भवनं विधास्यते यच्च सर्वप्रकारक कुशल प्रविधि नियन्त्रणाधीनं भविष्यति जम्मूकश्मीर जम्मू कश्मीरस्य राज्यपालेन एनएन वोहरा वर्येण राज्ये राज्यपाल शासनं प्रवर्तनस्य विषये परिचर्चार्थ अद्य सायं श्रीनगरे सर्वदलीयम् उपवेशनम् आकारितमस्ति आधिकारिक का स्रोतृभि सूच्यते यत् राज्यपालेन समेषामपि दलानां प्रमुखाह उपवेशनार्थं समाहता सन्ति ध्येयमस्ति यत् बुधवासरात् प्रभृति जम्मूकश्मीरे राज्यपाल शासनं कार्यान्वितमस्ति प्रशासनेन विनिर्णीतं यत् जम्मूकश्मीरे आतंकवाद निरोधकोपायत्वेन देशस्य एनएस्जी इति आतंकवाद निरोधक राष्ट्रिय सुरक्षाबलं नियोजयिष्यति गृहमन्त्रालयस्य अधिकारिभि नवदिल्ल्यां प्रतिपादितं यत् यत्र यदा आवश्यकता तत्र तदा तदा, तदा एनएसजी बलं नियोजयिष्यत विशेषदशास् यथा अपहरणकृत्यष् भवनष् आतंकिनां निगूहनस्थितौ एन एसजी भटानां अन्वयनं करिष्यता मन्त्रालयस्यानुसारि भूरिचरणष् कमाण्डो इति आतंकनिरोधक बलस्य शतभटा अपि तत्तदभियानष् एनएसजी भटैस्साकं संनियोजयिष्यन्ते यि आतंकवाद विरोध्यभियानं प्रभावितया प्रवर्तितं भवि मन्त्रिणा पीयूष गोयलेन विश्वास प्रकटितो यत् भारतं सदैव अंकद्वयस्य विकास परिमितिं समर्जयिष्यति इति नास्ति सम्भवम् यतोहि देशस्य भौगोलिकी स्थिति भिन्नास्ति मध्यवर्गीयाणाम् आकांक्षाश्चपि भिन्ना वर्तन्त नवदिल्ल्यां दृश्य बकिंघम शायर इत्यस्य लेटिमेर मध्ये द्विदिवसीय भारत ब्रिटि नतृत्व सम्मेलनस्य श्री गोयलेन प्रोक्तं यत् प्रशासन द्वारा उपपादित आधारिक संरचनानां माध्यम अर्थव्यवस्थाया परिमिति संवर्धन साहाय्यम् अवाप्स्यत एनआईए इति राष्ट्रियान्वीक्षणाभिकरण बिहारस्य कटिहार वांछित नक्सलवादी निगडितोऽस्ति इति वार्ता